श्रीमद्भागवतमहापुराणं चतुर्षि स्कन्ध अथ पञ्चमोऽध्यायः मैत्रे उवाच भवो भवान्या निधनं प्रजापतेरसत्यताया अवगम्य नारदात् सपार्सदत्सैन्यं च तदध्वरर्भुवि विद्रावितं क्रोधमपारमादधे क्रुद्ध सुधष्टोष्ठपुटसदुर्झटे जटां तडिध्वनिसटोग्ररोचिषम् उत्कृत्य रुद्रसहसोत्थितो हसन् गम्भीरनादो विससर्जताम्भुवे ततोतिकायस्तनुवास्मिन्प्रसन्दिवं सहस्रबाहुर्घनरुं तिसूर्यते करालद्रष्टो जलदग्निमूर्धज कपालमालीविविधोद्यतायुध तं किं करोमेते ग्लन्तमाह बद्धाञ्जलिं भगवान् भूतनाथ दक्षं सयज्ञं जहिमद्भटानां त्वमग्रणी रुद्रभटान् शकोमे आज्ञप्त एवं कुपिते देवदेवं परिचक्रमे विभुं भेरे तदात्मा नमसङ्गरं हसा महीयसां अन्वीयमानशतुरुद्रपार्श्वदैर्भिशं नस्तु भैरवम् उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रुवदं घोषणभूषणाङ्ग्रे अथर्तुजों तमः किमेतत्कृतम् एतद्रजोऽभूदिति द्विजा द्विजं पत्न्यस्य तद्ध्यो वाता दस्यवः प्राचीनबर्हि जीवति हो गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते दसूतिमिश्रा श्रियं उद्विग्नचित्ता उचिर्विपाको वृजनस्यै यः पश्यन्तीनां दुहितॄणां प्रजेश्रुतां सतीमं दध्यावनागां यस्वन्तकाले विप्तजिटाकलापं स्वशूलसुज्यर्पितदिग्गजेन्द्रः वितत्य नृत्यच्योदितास्तदोर्ध्वजां नुजाहासनयेत्नभिन्नदिम् अमरसयित्वा तमसयतेजसं मन्युप्लुतं दुर्विषहं भ्रुकूट्यां करालद्रष्टाभिहृदस्तभागणं स्यास्वस्ति किं कोपयतो विधातुः बह्वेवमद्व्यग्नदिशोच्यमाले जनेन दक्षस्य मुहुर्महात्मनः उद्वेतुरुत्पातमासहस्रशो भयावहादिवि भूमौ च पर्यक तापस्य रुद्रानुचरैर्मखो महान्नायुधैर्वामनकैरुदायुधैर्ङ्ग्यैपि के पे सङ्गैर्मकरोदानननैर्पर्याद्रवद्भिर्विदुरान्वरुध्यत केचिद्दभ्यों प्राग्वंसं पत्निशालां तथा परे सज आग्निद्रशालां च तद्विहारं महारसम् रुरुजियज्ञ पात्राणि तथैके ग्ने न नाशयन् कुण्डे स्वमुद्रयन् केचिद्बिभिर्न् दुर्वेदिमेखराः अबाधन्त मुनिरन्य एके, एके पत्नीर्तर्जयन् अप्रेज गृहर्देवान् प्रत्यासन्नान् पलायितान् धृगुम्भबन्धमणिमान् वीरभद्रप्रजापतिम् चण्डीसभूषणं देवं भगं नन्दीश्वरो गृहीत् सर्व एवरन् त्रिजो दृष्ट्वा सदस्या सदिवौकश तैर्दर्ज्यमानाशीं शुभृतं गावर्भेणैकथा द्रवन् यौवत स्रुवहस्तस्य शमस्रोणे भगवान् भव मृगोलृञ्च सदसीयोहं सत्समस्रो भगस्य नेत्रे भगवान् पातितस्य ऋषा भुवि उज्झहारसदस्थोक्ष्णां यसपन्तम् असुसंसुञ्चतां पुष्णश्चापातयद्दां यत्तान् कालिङ्गस्य यथा बलः सप्यमाने गिरिमरीयोः सद्दर्शयन्तदहम् आक्रम्यो रसीदक्षस्यसिद्धारेण हेतिनां छिन्दन्नपि तद्भर्तुं नाशक्नो त्र्यम्बकस्तदा शस्त्रैरस्त्रान्वितैरेव मन्निभिन्नन्न त्वजम्भरः विस्मयं परमापन्नो दध्यौ पशुपते स्थितं दृष्ट्वा संज्ञपनं योगं पशूनां च पतिर्मखे यजमानपशोकस्य कायात्तेनाहरच्छिरः साधुवादस्तदा तेषां कर्म तत्तस्य संसृतां भूतप्रेतपिसाचानां सातानाम् अन्येषां तद्विपर्ययः जुभावैतच्छिरं तस्मिन् दक्षिणाग्नावमर्शितः तद्देव यजनं दग्ध्वा गुह्यकालयम् देशीमद्भागुते दे महापुराणे प्रभ्यां चयितायां चतुस्कन्धे दक्षियज्ञिविध्वंसोऽनां पञ्चमोऽध्यायः